मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं सिक्स् देवासुरयुद्धवर्णनम् श्रीगणेशाय नमः ब्रह्मोवाच विश्वामित्रवसिष्ठौ च शृणुदं परमाद्भुतं चरितं गणनाथस्य महाशक्तिप्रदायकम् कदाचित् क्रोधको दैत्यस्सभासनगदो भवद तत्राकाशभवां वाणीं शुश्रावभयदायिनीं लम्बोदरश्च मुनिभिर्देवै सार्धं वधायते प्रार्थितः सदुहत्वां जगत्सुखी करिष्यदि तच्छ्रुत्वा मूर्चिदं क्रोधं सहसा भयविह्वलं तं दैत्येन्द्राश्च विप्रर्षी सावधानं प्रचक्रिरे शोकयुक्ताविशेषेण पप्रच्युस्तं महासुराः बल्याद्याभयभीदाश्च किं जातं वदमानद दैत्येशानाम्बच श्रुत्वा भययुक्तो महासुरः जगादतांश्च वृत्तान्तमाकाशे वाक्समुद्भवम् तच्छ्रुत्वा कुपिदा दैत्यास्तमोजोर्मदसंयुताः देवान्मुनिगणान्नाधहनिष्यामोऽद्य निश्चितम् अस्माकं शत्रवो देवास्थैकृदं दारुणं महद आज्ञापयमहाभागसर्वान्देवजिकांसया ततो दिहर्षिदक्रोधस्वयं युद्धाय सज्जितः दैत्ये शैः संवृद्ध सद्यो ययौ शैलेन्द्रमुख्यकम् समागदं महाक्रोधं दैत्येशैः समृदं तदः देवाः सर्वे भयोद्विघ्नाः सस्मरुर्गणनायकं तेषां स्मरणमात्रेण लम्बोदरः प्रतापवान् मूषकारूढये वा सा महाप्रभुः पाशादिशस्त्रसंयुक्तम् सिद्धिबुद्धिसमन्वितं नाभिशेषं त्रिनेत्रं तं ददृशुश्च सुरर्षयः तदस्तं ते प्रणेमुर्वैभयम् त्यक्त्वा सुहर्षिताः स्तुत्वा वृत्तान्तमुग्रं तं कथयामासुरादृताः श्रुत्वा वृत्तान्तमुग्रं स तान् जगादसुराधिपान् लम्बोदरप्रसन्नात्मा मुनीन् क्रोधयुधः प्रभुः लम्बोदर उवाच मा भयं कुरुतप्राज्ञा करिष्यामि महासुरं स्वधर्मस्थाञ्जनान् सर्वान् करिष्यामि न संशयः तद क्रोधासुरस्तत्र समीपे समुपागतः दृष्ट्वा लम्बोदरम् देवम्भयभीदो बभूवः उवाच दैत्यपांस्तत्र सत्यावाक्सानसंशयः अयं लम्बोदरो नूनम् सुरा तर तद्वन शुवा दैत्या क्रोधारुणे क्षण ऊचुस्त दैत्यनाथं ते गर्वयुक्ता बलान्वता दैत्येश ऊचु लम्बोदरयुधान् देवान् हनिष्यामो न संशयः मा कुरुष्व रक्ष पृष्ठम् महामदे देहधारी गणाध्यक्ष आगदो नात्र संशयः उत्पत्तिनाशवान् देह किं शुभम् काव्यम् दैत्यगणस्तत्र सस्मरुर्भक्तिसंयुताः तेषां स्मरणमात्रेण स चापि ह्यागतोऽभवद तम् प्रणम्य गुरुम् दैत्या वृत्तान्तम् सर्वमञ्जसा कथयन्ति स्म तम् श्रुत्वा शुक्रस्तान् प्रत्युवाचः शुक्र उवाच सिद्धिपदिं परित्यज्य सिद्धिमिच्छति दि दुर्मदिः तथा त्यक्त्वा बुद्धिपदिं स्फूर्तिमिच्छति मूर्खवद विघ्नराजं सदैकं तं त्यक्त्वा विघ्नहीनकाः कथं भवन्ति दैत्येन्द्रा दा दा मां विनिश्चयाद अदो युद्धं परित्यज्य शरणं भविष्य न सदेहो नो चेत्क्रोधो मुक्रे वचनम शुवा बलिस्तर जगा कर्मण सिद्धिदादा स्फूर्तिदा भवत्यहो कर्मणा विघ्नहीनत्वं सविघ्नं प्रकरोति च अतो वयं महायोगिन्कर्मणा दं जयामहे तस्य तद्वचनं श्रुत्वा सर्वे दैत्येन्द्रकादयः साधु साध्वब्रुवंस्तत्र सङ्ग्रामायोद्यदा बभुः तदो भावि बलं वीक्ष्य काव्यस्तत्र मुनीश्वरौ तूष्णीं भावं समाधृत्य संस्थितो भूत्स योगविद देवाः सर्वे महास्त्रैस्ते युक्ता क्रोधसमन्विताः आययूरणभूमिं च दैत्येशाश्च तथायययुः ततः परस्परं युद्धं बभूवे दारुणं महद दैत्यानां चैव देवानां परस्परविनाशनम् देवा दैत्या युयुधिरे कृत्वा मरणनिश्चयं शस्त्रास्त्रैर् बलगर्वेण प्रेरिता रणदुर्मदाः वीराणामभवन्नादैर्वादित्राणां च वाजिनां बृंहितानां च शङ्खानां दिशो नादयुधास्ततः सैन्यपादभवो रेणुश्चादयामास भास्करं नाभूत्स्वपरबोधोऽपि जघ्नुस्ते च परस्परं तदोरक्तप्रवाहश्च सम्भोदशस्त्रखादः रजकणास्तेन सर्वे मज्जिदा अभवन्मृधे ततः परस्परं दृष्ट्वा जघ्निरेक्रोधसंयुताः देवाश्च दनवास्तद्वत् परस् परजयेरदाः दीनत्रयमभूद्युद्धं घोरं सर्वभयावहं तदो दैत्यगणाः सर्वे वपुलोस्त्राससंयुधाः देवाहर्षयुतस्तत्र जय लम्बोदरप्रभो ऊचुस्तान्हन्तु मायादा दैत्येशा क्रोधसंयुताः बलिश्च रावणो जृम्भो माल्यवान्कुम्भकर्णकः राहुश्चान्ये महावीराः सङ्ख्यातुं न प्रशक्यते तैः शस्त्रनिचयैर्देवाः संहताः अपुलुस्तदा हित्वा सङ्ग्रामभूमिं ते छिन्नभिन्नाः समन्तदः तद इन्द्रश्च संगृद्ध सूर्यश्चन्द्रश्च देवेन्द्र आय तैरस्त्राणां महावृष्टिकृता परमदारुणा तया दैत्यगणाः सर्वे पपुलुश्च दिशो दश ततोदिक्रोधसंयुक्ता रावणाद्यात् समाययुः द्वन्द्वयुद्धमभूद्घोरं सर्वेभ्यो भयदायकम् जृम्भो ययौमहेन्द्रेण राहुसूर्येण संयुगे बलिश्च विष्णुना क्रुद्धो रावणः शङ्करेण च कुम्भकर्णश्च चन्द्रेण नाना दैत्येन्द्रकादयः देवेन्द्रैर्वायुमुख्यैश्च ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि महापुराणे पञ्चमे खण्डे लम्बोदरचरिरे देवासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ॐ